अथ चत्वारिंशः सर्गः अथ राजा समृद्धार्थः सुग्रीवः प्लवगेश्वरः उवाच नरशार्दूलम् रामम् परबलार्दनम् आगता बलिनः कामरूपिणः वानरेन्द्रामहेन्द्राभाये मद्विषयवासिनः त इमे बहु आगता वानराघोरा दैत्यदानवसन्निभाः ख्यातकर्मापदानाश्च बलवन्तो जितक्लमाः विख्याता विख्याताव्यवसायेषु चोत्तमाः पृथिव्यम्बुचरारामनानगनिवासिनः कोट्योघाश्च इमे प्राप्ता वानरास्तव किङ्कराः निदेशवर्तिनः सर्वे सर्वे गुरुहिते स्थिताः अभिप्रेतमनुष्ठातुम् तव शक्ष्यम् चरिन्दमा त इमे बहु साहस्रैरनीकैर्भीमविक्रमैः आगता वा न राघो रादैत्यदा तथापि तु यथा युक्तमाज्ञापयितुमर्हसि तथा ब्रुवाणम् सुग्रीवम् रामो दशरथात्मजः बाहुभ्याम् सम्परिष्वज्य इदं वचनमब्रवीत् न्यायतां सौम्य वैदेही यदि जीवति वानवा। सजदेशो वा स वसति रावणः अधिगम्य तु निलयम् रावणस्य च प्राप्तकालं विधास्यामि तस्मिन्काले सः त्वया नाहमस्मिन् प्रभुः कार्ये वानरेन्द्रणलक्ष्मणः त्वमस्य हेतुः कार्यस्य प्रभुश्चप्लवगेश्वर त्वमेवाज्ञापय विभो मम कार्यविनिश्चयम् त्वम् हि जानासि मे कार्यम् मम वीरणसंशयः सुहृद्वितीयो विक्रान्तः प्राज्ञः कालविशेषवित् भवानस्मद्धिते युक्तः सुहृदाप्तोऽर्थवित्तमः एवमुक्तस्तु सुग्रीवो विनतम् नाम यूथपम् अब्रवीद्रामसान्निध्ये लक्ष्मणस्य च धीमतः शैलाभम् मेघनिर्घोषमूर्जितम् प्लवगेश्वरम् सोबसूर्यनिभैः सार्धम् वानरैर्वानरोत्तमा मृतः शतसहस्रेण वानराणाम् तरस्विनाम् अधिगच्छदिशम् पूर्वाम् शशैलवनकाननाम् तत्र सीताम् च वैदेहीम् निलयम् रावणस्य च मार्गध्वम् गिरिदुर्गेषु वनेषु च नदीषु च नदीम् भागीरथीम् रम्याम् सरयूम् कौशिकीम् तथा कालिन्दीम् यमुनाम् रम्याम् यामुनम् च महागिरिम् सरस्वतीम् च सिन्धुम् च शोणम् मणिनिबोधकम् महीम् कालमहीम् चापि शैलकाननशोभिता ब्रह्ममालान् विदेहांश्च मालवान् काशिकोसलान् मागधांश्च महाग्रामान् पुण्ड्राम् स्तङ्गाम् तथैव च भूमिम् च कोशकाराणाम् भूमिम् च रजताकरा सर्वम् च मार्ग यद्भिस्ततस्ततः रामस्य दयिताम् भार्याम् सीताम् दशरथस्नुषाम् समुद्रमवगाढांश्च पर्वतान् पत्तनानिच च मन्दरस्य च ये कोटिम् संश्रिताः कर्णप्रावरणाश्चैव तथा चाप्योष्ठकर्णकाः घोरलोह मुखाशवनाद कालव पुषाद का, का, का कितास्तीक्षणचूाश हेमा प्रियदर्शना आमनीशना किवीपवासीन अतर्जलचरा घोरा नरव्याघ्रे स्मृता एतेषामाश्रयाः सर्वे विचेयाः काननौकसः गिरिभिर्ये च गम्यन्ते प्लवनेन प्लवेन च यत्नवन्तो यवद्वीपम् सप्तराजोपशोभितम् सुवर्णरूप्यकद्वीपम् सुवर्णाकरमण्डितम् यवद्वीपमतिक्रम्य शिशिरो नाम पर्वतः दिवम् देवदानवसेवितः एतेषाम् गिरिदुर्गेषु प्रपातेषु वनेषु च मार्गध्वम्सहिताः सर्वे रामपत्नीम् यशस्विनी ततो रक्तजलं प्राप्य शोणाख्यम् शीघ्रवाहिनम् गत्वा पारम् समुद्रस्य सिद्धचारणसेवितम् तस्य तीर्थेषु रम्येषु विचित्रेषु वनेषु च रावणः वैदेह्या मार्गितव्यस्ततस्ततः पर्वत प्रभवानद्यः सु भीमबहुनिष्कुटाः मार्गितव्यादरीमन्तः पर्वताश्च वनानि च ततः समुद्रद्वीपांश्च सुभीमान् द्रष्टुमर्हथ तत्रासुरा महाकायाश्चायाम् तम् कालमेघप्रतिमम् महोरगनिषेवितम् अभिगम्य महानादम् तीर्थेनैव महोदधिम् ततो रक्तजलम् भीमम् लोहितं नामसागरं। सागरम् गत्वा प्रेक्ष्यथताम् चैव बृहतीम् कूटशाल्मलीम् गृहम् च वैनते यस्य नाना रत्नविभूषितम् तत्र कैलाससङ्काशम् विहितम् विश्वकर्मणा तत्र शैलनिभा भीमा मन्देहा नाम राक्षसाः शैलशृङ्गेषु लम्बन्ते नानारूपा भयावहाः ते पतन्ति चले प्रति अभितप्तास्व लम्बन्ते स्म पुनः निहता ब्रह्म तेजोऽभिरहन्यः निराक्षसाः ततः पाण्डुरमेघाभम् गत्वा द्रक्ष्यथ दुर्धर्षा मुक्ताहारमिवोर्मिभिः तस्य मध्ये महान्श्वेतो ऋषभो नाम पर्वतः दिव्यगन्धैः कुसुमितैराचितैश्च नगैर्वृतः सरश्च राजतैः पद्मैर्ज्वलितैर्हेमकेसरैः नाम्ना सुदर्शनम् नाम राजहंसैः समाकुलम् विबुधाश्चारणायक्षाः किन्नराश्चाप्सरोगणाः पृष्टाः समधिगच्छन्ति नलिनीम् ताम् नृहंसवः क्षीरोदम् समतिक्रम्य तदा द्रक्ष्यथ वा नराः जलोदम् सागरम् शीघ्रम् सर्वभूतभयावहम् तत्र तत्त्वोपजम् ते जः कृतम् हयमुखम् महत् अस्या हुस्तन् महावेगमोदनम् स चराचरम् तत्र विक्रोशताम् नादो भूतानाम् सागरौकसा श्रूयते चासमर्थानाम् दृष्ट्वा भूद्बडवामुखम् स्वादूदस्योत्तरे तीरे योजनानित्रयोदश जातरूपशिलो नाम सुमहान् कनकप्रभः तत्र चन्द्रप्रतीकाशम् पन्नगम् धरणीधरम् पद्मपत्रविशालाक्षम् ततो द्रक्ष्यथ वा नराः आसीनम् पर्वतस्याग्रे सहस्रशिरसम् देवमनन्तम् नीलवाससम् त्रिशिराः काञ्चनः केतुस्तालस्तस्य महात्मनः स्थापितः पर्वतस्याग्रे विराजति स वेदिकः पूर्वस्याम् दिश निर्माणम् कृतम् तत्रिदशेश्वरैः ततः परम् हेममयः श्रीमानुदयपर्वतः तस्य कोटिर्दिवम् स्पृष्ट्वा शतयोजनमायत जातरूपमयी दिव्या विराजति समेदिका सालैस्तालैस्तमालैश्च कर्णिकारैश्च पुष्पितैः जातरूपमयैर्दिव्यैः शोभते सूर्यसन्निभैः तत्र योजनविस्तारमुच्छ्रितम् दशयोजनम् शृङ्गम् सौमनसम् नाम जातरूपमयम् ध्रुवम् तत्र पूर्वम् पदम् कृत्वा पुरा विष्णुस्त्रिविक्रमे द्वितीयम् शिखरे मेरोश्चकारपुरुषोत्तमः उत्तरेण परिक्रम्य जम्बू द्वीपम् दिवाकरः दृश्यो भवति भूयिष्ठम् शिखरम् तन्महोच्छ्रयम् तत्र वैखानसा नाम बालखिल्या महर्षयः प्रकाशमाना दृश्यन्ते सूर्यवर्णास्तपस्विनः अयम् सुदर्शनो यस्य प्रकाशते तस्मिंस्तेजश्च चक्षुश्च सर्वप्राणभृतामपि शैलस्य तस्य पृष्ठेषु कन्दरेषु वनेषु च रावणः वैदेह्या मार्गितव्यस्ततस्ततः काञ्चनस्य च शैलस्य सूर्यस्य च महात्मनः आविष्टा तेजसा सन्ध्या रक्ता प्रकाशते पूर्वमेतत्कृतम् द्वारम् पृथिव्याभुवनस्य च सूर्यस्योदयनम् चैव पूर्वा एषादिगुच्यते तस्य शैलस्य पृष्ठेषु निर्झरेषु गुहासु च रावणः वैदेह्या मार्गितव्यस्ततस्ततः ततः परमगम्या स्याद्दिक्पूर्वा त्रिदशा रहिता चन्द्रसूर्याभ्यामदृश्या तमसा वृता शैलेषु सर्वेषु कन्दरेषु नदीषु च ये च नोक्तामयोद्देशाविचेया तेषु जानकी एतावद्वानरैः शक्यम् गन्तुम् वानरपुङ्गवाः अभास्करमर्यादम् न जानीमस्ततः परम् अभिगम्यतु वैदेहीम् निलयम् रावणस्य च मासे पूर्णे निवर्तध्वमुदयम् प्राप्य पर्वतम् ऊर्ध्वम् मासान्न वस्तव्यम् वसन् सिद्धार्थाः सन्निवर्तध्वमधिगम्य च मैथिली महेन्द्रकान्ताम् वनषण्डमण्डिताम् दिशम् चरित्वा निपुणेन वानराः अवाप्य सीताम् रघुवंशज प्रियाम् ततो निवृत्ता सुखिनो भविष्यथा इत्यार्षे श्रीमद् रामायणे आदिकाव्ये किष्किन्धाकाण्डे चत्वारिंशः सर्गः